अथ सप्त पञ्चाशत् सर्गः राक्षसम् मृगरूपेण चरन्तम् कामरूपिणम् निहत्य रामो मारीचम् चूर्णम् पथिन्यवर्तत तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मैथिली क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः स स्वरमाज्ञाय दारुणम् रोमहर्षणम् चिन्तयामास गोमायोस्वरेण परिशङ्कितः अशुभम् वत मन्येऽहम् गोमायुर्वाच्यते यथा स्वस्ति स्यादपि विना मारीचेनतु तु विज्ञायस्वरमालक्ष्यमामकम् विकृष्टम् मृगरूपेण लक्ष्मणशृणुयाद्यपि सौमित्रिस्वरम् श्रुत्वा ताम् च तयैव प्रहितः क्षिप्रम् मत्सकाशमिहयिष्यति राक्षसैः सहितैर्नूनम् सीता ईप्सितो वधः काञ्चनश्च मृगो भूत्वा व्यपनीया श्रमात्तु माम् दूरम् नीत्वाथ मारीचो राक्षसो भूच्छरा हतः हा, हा लक्ष्मणहतोऽस्मीति यद्वाक्यम् व्याजहारः अपि स्वस्ति भवेद्वाभ्याम् रहिताभ्याम् मया बले जनस्थाननिमित्तम् हि कृतवैरोऽस्मिराक्षसैः निमित्तानि च घोराणि दृश्यन्तेऽ्यबहूनि च इत्येवम् चिन्तयन् रामः श्रुत्वा गोमायुनिः मृगरूपेण रक्षसा आजगामजलस्थानम् राघवः परिशङ्कितः तम् दीनमानसम् दीनमासे दुर्मृगपक्षिणः सव्यम् कृत्वा महात्मानम् घोरांश्च ससृजुस्वरान् तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः न्यवर्तता थत्वरितो जवेनाश्रममात्मनः ततो लक्ष्मणमायान्तम् ददर्श विगतप्रभम् ततो विदूरे रामेण समीयायस स लक्ष्मणः विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना स जगर्हे तम् भ्राता दृष्ट्वा लक्ष्मणमागतम् विहाय सीताम् विजने वने राक्षससेविते गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनन्दनः उवाच मधुरो दर्कमिदम् परुषमार्तवत् अहो लक्ष्मण गह्यन्ते कृतं यत्वं विहायता सीता सौम्य कच्चित् स्वस्ति भवेदिति नमेस्ति मेऽस्ति संशयो वीर सर्वथा जनकात्मजा विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः अशुभान्येव वा भूयिष्ठम् यथा प्रादुर्भवन्ति मे अपि लक्ष्मणसीतायाः सामग्र्यम् प्राप्नुयामहे जीवन्त्याः पुरुषव्याघ्रसुताया जनकस्य वै यथा वै मृगसङ्घाश्च गोमायश्चैव भैरवम् वाष्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् अपि स्वस्ति भवेत्तस्याजपुत्र्या महाबला इदम् हि रक्षो मृगसन्निकाशम् प्रलोभ्य माम् हतम् कथञ्चिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव मनश्च मे चक्षुश्च सव्यम् कुरुते विकारं। असंशयम् लक्ष्मण नास्ति सीता हृता पथि वर्तते इत्यार्षे श्रीमद् वाल्मीकिये आदिकाव्ये अकाे सप्तपचाश